मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फिफ्टि नैन् कुण्ठसम्भवचरित्रम् श्रीगणेशाय नमः विक्समद उवाच यमस्य वचनं श्रुत्वा सविता विस्मितो भवद धर्मशीलस्य संग्रोधो मादरिप्रबभूवः मादास्वदेहजं पुत्रं भेदबुद्ध्या शशापः अधकारणकं कारणकं किञ्चिद्विपरीतं भवेदिह ततो बुद्ध्वा स यमं भानुरुवाचह मातुःशापं कदा मिथ्या मया कर्तुं न शक्यते अतो विनायकं देवम् भजम् त्वम् भक्तिभावतः स चेत् प्रसन्नताम् ह्यादस्तदा सुखमवाप्स्यसि एवम् मुक्त्वार्यमापुत्रम् मन्त्रम् पञ्चाक्षरम् ददौ विधियुक्तम् गणेशस्य स ययौ वनमादराद सवितासौ जगामेदम् छायाम् वचनमब्रवीद सञ्ज्ञा कुत्र गदा देवि वदनो चेच्छ पाम्यहं सा भीदा वचनं तं जगादः विदुर्गेऽहं गदा संज्ञास्ताप्य मां त्वद्गृहे प्रभो सत्यभाषणयोगेन तुष्टस्ताम् न शशापसः जगामविश्वकर्माणम् क्रोधयुक्तो दिवाकरः तं प्रणम्य स पप्रच्च वृत्तान्तं रक्तलोचनः सञ्ज्ञाया विश्वकर्मा तं सान्त्वयामास युक्तिभिः विश्वकर्मो वाच मया ते गृहमेवंसा नागदा यदा मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् त्वदीयतेजसा तप्तगदा शुष्कशरीरका अतस्त्वं तेजसा सौम्यो भवतः स्यां रमस्व जगादेदं वचनं तं विभावसुः त्वं विश्वकर्मदां प्राप्तो मां कुरुप्रभो। कुरु प्रभो तदस्तेन महद तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगामः अश्विनीरूपभावेन स्थिदां वीक्ष्य वनेषु सह अश्वो प्रयत्नेन धर्तुम् तामुद्यदो भवद सा पुरुषं ज्ञात्वा गणेशं मनसा स्मरद तद सूर्येण स्वं नसि निक्षिप्तमादराद तदस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलाद निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् एवं दृढाग्रहं दृष्ट्वा सवितात्तोषवानभूतस्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ संज्ञया सवितुर्वीर्यं त्यक्तं तस्मात् समुद्भवौ अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यो बभूवधुः गणेशभक्तिभावेन संज्ञा सुखयुधा भवद तमेव सतदं देवी भजते नन्यमानसा यमोऽपि च तपस्तेऽपे दारुणं भावसंयुधः निराहारतया देवं ध्यात्वा जपपरो भवत संवत्सरसहस्रेण गणेशो वरदो भवत तं दृष्ट्वा सहस्रोद्धाय पूज्य तुष्टावभानुजः यम उवाच नमो गणपदे तुभ्यं नाना मायाविलासिने मायाकवेषेण स्थिताय तु नमो नमः मायामोहविहीनाय साक्षिणे जगदादये ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः अनन्ताय नमस्तुभ्यम् हेरम्बाय चड्डुण्ठये विघ्नेशाय त्रिनेत्राय लम्बोदरनमोऽस्तु ते दे। गजाननाय देवाय देवानां पदये नमः देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदायते अनन्ताननधारायनन्दहस्ताय ते नमः अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे शिवाय शिववन्द्याय शिवदाय नमो नमः अखण्डविभवायैव मूषकध्वजिने नमः मूषकश्रेष्ठवाहस्तायैकदन्ताय ते नमः आदिमध्यान्तरूपाय सर्वाकाराय ते नमः पाशाङ्गुशधरायैव सर्वभोक्त्रे नमो नमः त्वां स्तोतुं कः सामर्थस्याद्योगाकारस्वरूपिणम् अदोऽहं प्रणमामीह तेन तुष्टो भवप्रभो धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः अधुना रक्षमां भक्तं शरणागतवत्सला एवं स्तुवन्दमत्यन्तमुवाच गणनायकः यमं परमभक्तं च सूर्यपुत्रं यशस्विनं गणेश उवाच वरं वृणुमहाभाग यमत्वं मनसीप्सिदं दास्यामि ते महाभक्यः तोषितोऽहं न संशयः तदस्थं भानुजस्तत्रो वाजदेहि गजानना भक्तिं त्वदीयपादेवै सुदृढा मे महोदर अन्यं वरं च मे देहि मातृशापहरं परं यद्यदिच्छामि देवेश तत्तत्सिद्ध्यदु विघ्नव एवं तस्य वच तथेदि गणपो ब्रवीद मदीया दे महाभक्तिर्भविष्यदि न संशयः मातृशापस्य योगेन क्लेद्य पादाच्च मां सं ते कीडास्सङ्गृह्य अदिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि धर्मराज इति ख्यातो सर्वत्र पूजितः स्वधर्मपालकेषु श्रेष्ठो धर्मकरो मदः जीवानां कर्मयोगेन फलदश्च भविष्यसि त्वदीयाज्ञा त्रिलोकेषु वर्तदाम् धर्मभावतः त्वया स्तोत्रमिदम् पुण्यम् कृदम् तच्च सुसिद्धिदम् पठदे शृण्वदे पूर्णम् भविष्यदि न संशयः यमस्य यादनाम् होराम् स्तोत्रेण प्रस्तुतो यम हरामिनात्र सन्ते होम् ते स्वानन्दं ददाम्यहं त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना गणेशतीर्थसंज्ञं तत् भविष्यदि न संशयः अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेद् सुबुद्धिप्रथमेतच्च तत्क्षणात् प्रभविष्यति एवमुक्त्वा दर्दधेस्सौ यमस्तत्र स्थितोऽभवद संस्थाप्य मूर्तिमचलां हेरम्बस्य महाद्विजैः कुण्डं चकारभावेन गणेशपदलाञ्छितं हेरम्बगणपो नाम्ना तत्र ख्यातो बभूवः यमः सदा गणपदिं चित्ते ध्यायद्वै रविनन्दनः सम सर्वत्र संजाद सर्वमान्यो महायशाः एदत्तेकदिदं दिव्यं चरित्रं कुण्ठसम्भवं यमे नरजितं पुण्यं सर्वसिद्धकरं महद एदद्यमस्य माहात्म्यं यशृणोदि नरोत्तमः पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति अधुना शृणु दैत्येन्द्रप्रकृतं यत्कदानकं भुषुण्डिनश्च पापक्नं वाञ्छितार्थप्रदं परम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कुण्डसम्भवचरित्रं नामैको षष्टितमोऽध्यायः